गर्गसंहिता खण्डम् एय् बलभद्रखण्डम् अध्यायम् वन् बहुलाश्व उवाच श्रुतम् तव मुखाद्ब्रह्मन् मङ्गलम् परमाद्भुतम् सुद्धा खण्डात् परम् मिष्टम् खण्डम् विश्वजिदम् परम् परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः षोडशस्त्रीसहस्राणाम् दश्या दश्या भवन, पुत्र दश दशाव पौत्रास् बूव कॉटिशो मुजसी भूमिगणयेन्न कविचेरे कुलम रेपत बलदेव रा महात्म पुत्रोदय कथम नु सियादे ब्रूहितीनाद उवाज बाठमुक्तम् भगवतः सङ्घर्षणस्याच्युदाग्रजस्य बलभद्रस्य रामस्य कामपालस्य कथाम् सर्वथा तवाग्रे कथयिष्यामि कदा अथ कदाचित् प्राड्विपाको नाम मुनीन्द्रो योगीन्द्रो दुर्योधनगुरुर्गजाकोऽयम् नाम पुरमा जगाम सुयोधनेन सम्पूजितपरमादरेण सोपचारेण महार्ष सिंहासने स्थितो भूद तं प्रदक्षिणीकृत्य प्रणिपत्य कृताञ्जलिपुरस्थितो मनःसन्देहं स्मृत्वा धार्तराष्ट्र इति होवाच सङ्घर्षणसाक्षात् बलभद्र किं कारणात् कस्माल्लोकात् केन प्रार्थितो भूलोकाना जगामयनेदम्पुरम् तिर्यग्भूतमभवत्तस्य मम गुरोर्गदा शिक्षा करस्याहो तत्र प्रभावम् नितरां वदताद प्राड्विपाक उवाच युवराजकुरुद्वः यदुवरस्य प्रभावं शृणु यश्रवणे पापहानि परं भूयाद अस्मिन् द्वापरान्दिनृपव्याजदैत्यार्भूरिभ्र भूरिभारान्दा भूर्गौर्भूत्वा स्वयं भूवं शरणं जगाम तदुपचारिसुरश्रेष्ठसर्वसुरगणैः समृडो वैकुण्ठनाथं पुरस्कृत्य श्रीवामन वाम पादाङ्गुष्टनखनिर्भिन्नोर्ध्वाण्डकडाह विवरमार्गेण बर्हिर्निगत्य कोडिश्योण्डनिचयं ब्रह्म द्रवे सम्प्रेक्षन् विरजातीरं प्राप्तवान् अदाग्रे सङ्ख्यकोडि मार्दण्डज्योतिषां मण्डलमवेक्ष्य दादा नत्वा ज्ञात्वा तत्रानन्दं सहस्रवदनं सङ्घर्षणं गुणलक्षणलक्षितं देवैः सहदर्श तद्भोगकुण्डलीभूतोत्सङ्गे वृन्दारण्य ी गोवर्धनाद्रिकुञ्ज निकुञ्जलता तरुपुञ्जगोपालगोपी गोकुलसङ्गुलं ललितं गोकुलं सर्वलोकनमस्कृतं समेत्य तत्र निजकुञ्जे निजाज्ञां नीत्वां तः साक्षात् परिपूर्णतमं स्वयं श्रीकृष्णचन्द्रमसङ्ख्य ब्रह्माण्डपदिं श्रीराधापदिं श्यामलच्छविम्बिताम्बरवनमाला वंशीधरं कोणत्कनक नूपुरकिङ्गिणी कटकाङ्गदहारस्फुरत् कौस्तुभाङ्गुलीयकै सर्वतः परिस्फुरत् कोडि बालमार्दण्डमण्डलं किरीटकुण्डलमण्डितकण्ठस्थल मलकालिभिर्विभ्राजमानमुखारविन्दं नमस्कृत्य विधि सर्वै सर्वं भूभारवृत्तान्तं कथयाम्बभूव तेषां विज्ञप्तिं विज्ञाय भूमि भगवान् स्वजनानान् स्वजनान् सर्वदेवान् यथातमाज्ञां दत्त्वा नन्दं सहस्रवदनमिति होवाच अङ्कपुरात् त्वमपि वासुदेवस्य देवक्यां भूत्वा रोहिण्युदारा दाविर्भव पश्चाद्देवक्यापुत्रदामहम् प्राप्स्यामि इति श्रीगर्गसंहितायां बलभद्रखण्डे दुर्योधनप्राढ्विपादसंवादे बलदेवावतारकारणम् नाम प्रथमोऽध्यायः ओ अध्यायम् टु प्राड्विपाक उवाच इत्युक्त्युक्त सहस्रवदनो गन्तुमभ्युदित स्वसभायाम् स्थितोऽभूद तदैव सिद्धचारणगन्धर्वः सर्वतस्तम् नतकंधरा बभूवुः अथ रथं सारथिर्दिव्यम् साश्यं तालाङ्गम् शाश्वम् समानीय सम्मुखम् स्थितोऽभूद पर सैन्यविदारणम् मुसलम् दैत्यदमनम् कलम् तेतूर्णम् पुरस्ताधुप तस्तधुग् नाम वर्म चोपतस्ते अथ तत्र श्रीबलभद्रसभायाम् सर्वेषाम् पश्यताम् रमा वैकुण्ठात् समागतः पाणि निपतम् जल्यादिभिर्मुनिभित्तुयमानः सहस्रभण मौलिविराजमानसिद्धचारणचामर संसेव्य मानश्रस्तमनन्तम् सङ्घर्षणं स्तुत्वा तद्विग्रहे भूद संलीनोऽभूद अथाजिद वैकुण्ठसमागदो जैक पादहिर्बुध्न्य बहुरूपमहदादिभिः संवेष्टिदो कोरैः प्रेतविनायकै संवेष्टितशेषसहस्रवदनः समागत्य स सभायामनन्तं तुत्वा तस्मिन् संलीनोऽभूध अतश्वेदद्वीपासमागत कुमुद कुमुदाक्षादिभिः कुमुदा पार्षदप्रवरैः ससेव्यमानसहस्रभणमौलि विराजमानसिता च लाभो नीलाम्बरो नील कुन्दलाभो भीमा भ सर्वेषां पश्यदामनन्दविग्रहे सोऽपि भूत म्लीनोऽभूत् अथ तदैर्वेलावृतखण्डात् समागतस्त्री गणार्बुदसहस्रैर्भवानीनादै समावृतशेषसहस्रवदन मौलिमण्डलमण्डितः प्रस्फुरत्किरीडकटकाङ्गदसभा संप्रलीनो सम्प्रलीनोऽभूद अधपादालस्याधस्ताद्वात्रिंशद्योजनसहस्रान्तरात् समागतो भगवद्दस्तामस्यी सहस्रवदन किरीड मार्दण्डमण्डलमण्डितो वेदव्यास पराशर सनक सनन्दन सनातन सनत्कुमारनारद साङ्घ्यायनफुलस्य बृहस्पति मैत्रेयादि महर्षिभिः संशोभिदो वासुकिमहाशङ्गश्वेद धनञ्जय धृतराष्ट्रकुहक का। कालियदक्षक का कम्बदाश्वतरदेवदत्तादिभिर्नागेन्द्रैश्चामरपाणिभिः संसेव्यमानो मृगमदागरुकुङ्गुम चन्दनपङ्गावलिप्यमानाभिर्नागकन्याभिसिद्धचारणगन्धर्वविद्याधर गणैरुपगीयमानो हाडकेश्वर त्रिपुर बलकालकेयकलिनिवादकवचैरनुयायिभित्पुरसरैरुद्रैकादशव्यूहैर्नाभिकाम धेनुवरुणै पश्चात् प्रया येभिर्वीणा वेणु मृदङ्गतालदुन्दुध्वनि दुन्दुभिध्वनिशब्दाय दुन्दु शब्दायमान फ्वीन्द्रो नागेन्द्र इव दुर्नगधिर्विराजधेयस्य इह पणे चेदं क्षितिमण्डलं सिद्धार्थ इवलक्षदे लक्षदे सोऽप्यागत्य महानन्दविग्रहे सम्लीनोऽभूद तच्चित्रम् दृष्ट्वा सभा पार्षदा सर्वे तम् परिपूर्णतमम् ज्ञात्वा वनदा विस्मिता बहूवुः आधानन्दवदनो महानन्दसङ्घर्षणो भगवान् पार्षदान् सिद्धानुवाच अहम् भूमिभारहरणार्थम् भुवि गमिष्यामि तस्माद्यूयम् यावदेषु भविष्यथ भो प्रबलोद्भटसुमदे सारदे भवदात्रैवस्तीयताम् शोकम्मा कुरुताद्यदा युद्धार्ति त्वत्स्मरणं करिष्यामि तदा तं दिव्यं तालाङ्गं रथं नीत्वा मत्समीपमागमिष्यसि हे हलमुसले यदा, यदा करिष्यामि तदा तदा मत्पुर आविर्भूते भोवर्मत्वमपि चाव्येर्भव हे मुनय पाणिन्यादयो हे कोडिशोरुद्राहे भवानीनादहे एकादश रुद्राहे गन्धर्वाहे वासुक्यादिनागेन्द्राहे निवादकवजाहे का वरुणहे कामदेनो भूम्याम् भरदकण्डेयतु कुलेव तरन्तम् सर्वे सर्वदा एत्य मम दर्शनं कुरुदा प्राग्विपाक उवाच इत्याज्ञप्ताः सर्वे स्वम् स्वम् धाम समाजमुस्तेषु गदेषु नागकन्यायूधान् भगवानन्तप्राग युष्माकमभिप्रायो मया ज्ञा दस्तपः सा गृहेषु जन्मानि प्राप्य मद्दर्शनम् कुरुत कदाचित् कलिन्दनन्दीनी कुले विकारमाधुर्यमूले युष्माभिः सखरासमण्डलम् करिष्यामि युष्माकम् मनोरथसफलो भविष्यति अधनिवातकवचानाम् राजा कलिस्वामि पादकृतमस्तकाञ्जलिप्रदत्तपुष्पाकलिश्रीभगवन्तम् प्रत्यवाजा अहं कि करिष्यामि मय्याज्ञां कुरु भगवन् यत्र त्वं गमिष्यामि तत्राप्यहं गमिष्यामि हाव त्वद्वियोगेन महान् खेदो भविष्यति सहैव मां नय त्वं भक्त वत्सलोऽसि एवं सम्प्रार्थितो भगवान् अनन्तकलिं राजानं स्वभक्तं सुखनत्वं मत्सखे आगच्छ भरतखण्डे कौरवेन्द्राणां कुले धृतराष्ट्रस्य पुत्रो भूत्वा दुर्योधनो नाम चक्रवर्ति भविष्यसि त्वत्सहायमहं करिष्यामि गदाशिक्षां च दास्यामि इत्युक्त कलिस्तं नमस्कृत्य स्वधामगतवान् सैष कलिस्त्वं जातोसि विष्णु मायया स्वात्मानं न स्मरसि इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे सङ्घर्षणगमनमन्त्रो नाम अद्वितीयोऽध्यायः ओम् अध्यायम् त्रि प्राड्विपाक उवाच अथा गदा कोडिशरच्चन्द्रमण्डलप्रतिकाशनागलक्ष्मीर्महारथस्ता सखिकोडिमण्डलमण्डिदा सङ्घर्षणम् महानन्दं भर्तारं सभायां प्राह अहमपि त्वया सहैव भगवन् भुवमागमिष्यामि त्वद्वियोगादुरा प्राणान्न धारयामि इति बाष्पकण्ठीं प्रियां सम्प्रेक्ष्य सर्वभक्तदुःखनिवारणो महेन्द्रवारण इव भोगवारण इति गोवाच रम्भोरुत्वं रेव विग्रहे संलीना भूत्वा भूलोकं भजतान् मा शोकं कुरुताद तच्छ्रुत्वा नागलक्ष्मी प्रत्युवाज रेव काकस्य सुधाक्वर्धमाना निदरां वदय तत्तच्छ्रुत्वा भगवानन्दसस्मितस्वप्रियं प्रत्युवाच आदिसर्गे कश्यपश्य कदृसुदोह्यहम् जातः श्रीकृष्णाज्ञया त्वखण्डभूखण्डमण्डलम् गजराडिव चैगफणे कमण्डलुमिव धृत्वा सर्वदोद्धस्ताद्विराजमानोऽकम् बभूव अध मयि स्थिते चक्षुषपुत्रोदि बलश्चाक्षुषो नाम मनुःसप्तद्वीप पदिभिर् गृष्टपाद पदिभिर्घृष्टपादपुण्डरीकः पुरन्दरादिभिर्लङ्घित चण्डशासनः प्रचण्डदोर्दण्डाविखण्डितारिदोर्दण्डः सर्वगुणमण्डितसम्राट् बभूव तस्य मनो सुद्युन्नाध्यापुत्रा बभूवुः तस्य यज्ञकुण्डसमुद्भवा कन्या ज्योतिष्मदी जादा एकदा स्नेहका चाक्षुषपुत्रीं तमाद्युभाव तदैव भ्यः समागतम् वज्रणम् पुरस्थितम् साधरेणासनम् गत्वा मनुप्राह त्वकोऽपि बलवान् वर्धते न वद न चेत् स्मृति न हि धर्म इति होवाच भूरियम् सर्वम् सोधुमलम् मन्ये हृदेलीकवरम् नरम् इन्द्र उवाच अहं बलवान् नास्मि मत्तु बलवान् वायुरस्ति तेन सहायेन कार्य करोमि इति उक्तवान् गदेशक्रे राजा वायु माजुहावा स चत्वर्थ कोऽपि बलवान् सत्यं वददाद वायुरुवाजा मत्तो बलवन्तपर्वत सन्ति मद्वेगेन नोडीयमान इत्युक्त्वा गदेवायौ राजा पर्वता नाजुहाहजा भवद्भ्यकोऽपि कौ बलवान् वर्तते तत्सत्यं वदद पर्वतप्राहुरस्मधारणाधूखण्डं बलवद्वर्तते यत्र वयं स्थिताः स्मः पर्वतेषु गदेषु भूखण्डमण्डलं समाहूय राजा प्राक् त्वत्तकोपि बलवान् वर्ददे न वा सत्यं वद तच्छ्रुत्वा भूखण्ड उवाच मतो बलवान् सङ्कर्षणो भगवान् वर्ददे सोऽयं सदा नन्दो नन्दगुणार्णव आदिदेवो वासुदेव सहस्रवदनो नागेन्द्र इव भव्यवभुः कैलासैव शुक्लप्रकाशकोडिसूर्यप्रतिभासः कोडिकन्दर्प हारिलावण्यन विभ्राजमान कमलपत्राक्षः कमलकर्णिका दिव्यविमलमाल निर्मल परिलोभितमधुकर निकर सङ्गीयमानसिद्धचारणगन्धर्वविद्याधरवरगणैरुपगीयमान सुरासुरोरग मुनिगणैः सन्ध्यायमान सर्वोपरि विराजमान आस्ते यस्यैकस्मिन्मूर्ध्नि स गिरिसरित्समुद्रवनजीवकोडिमण्डितम्भूखण्डमण्डलमहं दृश्ये यन्नामानु कीर्तनत्रिलोक्यं त्रैलोक्यख्यात्यपि कैवल्यं प्राप्नोति यवं प्रभावो भगवान् सर्वतो बलवान् सर्वकारणकारणः सर्वेश्वरो दुरन्धवीर्यो मूले रसास्मात् परः कोपिनास्ति महानन्द उवाच इत्युक्त्वा गदे भूखण्डे चाक्षुषकन्या ज्योतिष्मदी मम माधुर्यप्रभावं विज्ञाय पित्राज्ञां गृहीत्वा विंध्याचले मत्प्राप्त्यर्थं वर्षाणां लक्षाणि ब्रह्मतपस्तपे तपस्ते ग्रीष्मे पञ्चाग्नितप्तवर्षासु सर्वासारधारिणी शिशिर आकण्ठमग्ना शीतोदके भूत्वा स्तण्डीलशायिनी बभूव इति श्रीगर्गसंहितायां बलभद्रखण्डे नाम तृतीयोऽध्यायः ओम् अध्यायम् षोर् श्रीमहानन्द उवाच अधज्योतिष्मदीं शतचन्द्रप्रतीकाशां नवयौवनां सुन्दरीं तपस्विनीं वीक्ष्य शक्र यमधनदाग्नि वरुणसोमसूर्यमङ्गल बुध बृहस्पति शुक्रशनयः सर्वे तद्रूपोद्धीपितकामसम्मोहिदचित्तास्तदाश्रमेत्य तामोचुः हे सुन्दरी रम्भोरु धन्यासि कस्यार्थम् तपः वयस्तप योग्यम् स्वकमस्माकं वदेदि तच्छ्रुत्वा ज्योतिष्मत्युवाच भगवानन्तःसहस्रवदनो मम भर्ता भूयादेतर्धम् तपस्तपामीदि सर्वे जगः पृथक् पुर्धक, पृथक् तेषाम् इदमाह इन्द्र उवाच सर्पराजं वरम् कर्तुम् किम् वृथा तपसे शुभे देवराजं वरयमाम् स्वतप्राप्तम् शतक्रदुम् यम उवाच यमराजं वरय माम् दण्डनेदारमागधम् सर्वोत्तमात्वम् मत्पत्नी पितृलोके भविष्यसि धनद उवाच राजराजम् हि माम् विद्धि निधीष्यं हे वराङ्गने त्वम् भजास्यु विशालाक्षित्यज सङ्घर्षणेरधिम् अग्निरुवाच सर्वदेवमुखम् विद्धि सर्वयज्ञप्रतिष्ठितम् भज माम् त्वम् विशालाक्षि विहायान्यत्र वरुण उवाच लोकपालं पाशिनं यदसांपदिं पाशिनम् यदसाम्पदिम् सप्तानां हिसमुद्राणाम् वैभवम् पश्यभामिनि सूर्य उवाच जगच्चक्षुःसदाहं वै चण्डांशुश्चाक्षुषात्मजे विहाय पादालगदिम् वरमां स्वर्णभूषणम् सोम उवाच द्विजराजश्चौषधीशो नक्षत्रस्य सुधाकरः कामिनी बलदोऽहं वै भज गजगामिनी मंगल मङ्गल उवाच इयं महीः मे मादा पिता साक्षादुरुक्रमः मङ्गलम् भज भद्रे भूत्वा भूरि भवार्धिनी बुध उवाच बुधोऽहं बुद्धिमान् वीरः कामिनी रसवर्धनः विसृज्य सर्वनाकेशान् रमस्वत्वं मया सह बृहस्पतिरुवाच गीष्पतिर्धिषणोऽहं वै सुराचार्यो बृहस्पतिः साक्षाद्देव गुरुर्लोके भज माम् मन्यसे शुभे शुक्र उवाच साक्षाद् दैत्यगुरुकाव्यो भार्गर्वोहम् महामदे स्वश्रेयस्तु विचार्यैवम् भव मद्भामिनी भृशम् शनिरुवाजा सर्वेषाम् बलवान् भद्रे अहम् देवो परिस्थितः यजशोकम् वरय मां लोकभस्मकरम् दृशा महानन्द उवाच अध ज्योतिष्मदीतेषां वचांसि श्रुत्वा ऋणनेत्रा स्फुरदधरचलभ्रूभङ्गा प्रोद्य द्रोषाग्निप्रकर्षोच्चलडा मां परम् सस्मार परं क्रोधं च चकार तेन सखण्डं महीमण्डलं ब्रह्माण्डमपि परं चा ब्रह्मलोकान् दृढ मेजत् सर्वदो महद्भयं बभूव तदैव भयभीदा प्रकंपिताः कृतबलि पाणयपादपद्मे परितो निपेदुः पाहि पाहीदि जगुस्तैरिद्धं शान्तापि ज्योतिष्मदि पृथक् पृथक् तान् शशाप ज्योतिष्मत्युवाचा क्षदयितुमिह मां समागतस्त्वम् भव खल पङ्गुरधः समीक्षणश्च कृ शतनुराधिकृष्ण कुत्सिदाभो भव सहसासिदमाश तैलभक्षी हे शुक्र अक्ष्णा भवण आशु स्त्रीसञ्ज्ञकस्त्वम् भवगीष्पदेत्र हे सौम्यदे वारदिनम् हि शून्यम् वदन्ति गच्छन्ति न कदाचिद हे मंगलत्वं भववानराननो निशाकरत्वं निशाकर त्वं भवराजयक्ष्मवान् त्वं भग्नदन्दो भव भो दिवाकर पाशिन्रुचिस्ते भवताञ्जलिं धरी त्वं सर्वभक्षो भवदा दुर्षर्बुध मनुष्यधर्मन् हृदपुष्पको वैवस्वस्ता त्वं बहुमानभङ्गो भवशु युद्धे प्रबलेन रक्ष सा मां हर्तुमागत्य सुराधमस्थितः करोषि निन्दां परमात्मनो गिरा तव प्रियां कोऽपि नृपो हरिष्यदि करिष्यति स्वर्गसुखं गदे त्वयि पाशेन युधिनिर्जितं त्वाम् बलागृहीत्वा कलुगोऽपि राक्षसाः राक्षसाः लङ्काम् पुरीमेत्यदिवस्पदेवै कारागृहेन्धे किल कारयिष्यति श्रीमहानन्द उवाच अधः वावतया शप्तानाम् मध्ये कुपितः शक्रोपिताम् शाप कोपकारिणि सङ्घर्षणम् वरमपि प्राप्यत्र जन्मनि ह्यन्यत्र वा कदाचित्तव पुत्रोत्सवो माभूद एवमुक्त्वा चक्रोऽपि तत्तेजः सा धर्षीदः सर्वदेवगणैः सह स्वर्गम् जगाम पुनः सा अध तत्तपो दृष्ट्वा ब्रह्मा ब्रह्म विद्भिर्ब्राह्मणैर्ब्राह्मयादिभिः सम्भृत सर्वजगत्कारणभूतस्वभवना धानेनागतवान् अम्बरे स्थित्वा तामाहे ज्योतिष्मदी चाक्षुषात्मजे त्वत्तपः सफलं जातं तेन सिद्धासि प्रसन्नोऽस्मि वरम् ब्रूहिति तच्छ्रुत्वा कण्ठजलाद्विनिर्गत्य ब्रह्माणम् प्रणिपत्य स्तुत्वा कृताञ्जलिरित्य ब्रवीद हे भगवन् यदि प्रसन्नोऽसि किलेह सङ्घर्षणो भगवान् सहस्रवदनो मम वरो श्रुत्वा हवाव विभुधर्षभप्रत्युवाच हे पुत्री तव मनोरथो दुर्लभोऽस्ति तथापि पूर्णकरिष्याम्यद्यैव वैवस्वतमन्वन्तरः वा प्राप्तोऽस्ति ह्यस्य त्रिनव चतुर्युगविकल्पिते काले सति तत्र वरसङ्कर्षणो भगवान् भविष्यति तच्छ्रुत्वा ज्योतिष्मदि ब्रह्मणमाहदेवदेव भगवान् महान् कालो वर्तते मम मनोरथशीघ्रं भूयात्वं कर्तुं समर्थ न चेत्तुभ्यं शापं दास्यामि यथा देवेभ्यो दत्तः इति प्रोक्तो ब्रह्मा शापभेदः क्षणं विचार्य पुनराह हे राजपुत्रि त्वं मानार्तपतेरेवतस्य कुशस्थल्यां <Kushastalayam>, पुत्री भवतस्मिन् जन्मनि त्रिनव चतुर्युगविकल्पितः काल केनचित् कारणेन क्षणवद्भविष्यदि तस्यै वरं दत्त्वा ब्रह्म तत्रै वान्तरधीयदा अध सा ध्यानर्थश्रुकुशस्थलीपुरेरेव तस्य भार्यायां जन्मलेभे तत्र ज्योतिष्मदीरेव नाम रूपौदार्यगुणमण्डिता नवशरत् ना कञ्जनेत्रा विवाहयोग्या ताम्रेवदस्नेहे नान्धपुरे सभार्य उवाच कीदृशं वरमिच्छसीति वजश्रुत्वा सा सर्वेषां बलवान् समे वरो भूयात् इति श्रुत्वा राजा रेवदः सभार्यो नीत्वा दिव्यं रथमारुह्य बलवन्तं दीर्घायुषं परिप्रष्टुं लोकानुल्लङ्घ्य ब्रह्मलोकं गतवान् तत्र क्षणमास्थितो भूक्तेन क्षणेन त्रिनव चतुर्युगविकल्पितकालो जातः साध्यैव ब्रह्मलोके वर्गदेरम्भोरु तस्या त्वम् संलीना भूत्वा वैशावतारिणी द्वारकाम् प्राप्य रमस्व प्राड्विपाक उवाच इत्थम् तद्वाक्यम् श्रुत्वा नागलक्ष्मीसङ्कर्षणम् भर्तारमनुज्ञाप्य ब्रह्म लोकमेत्यरेव विग्रहे स्वावेश्यं चकार अधः सङ्घर्षणो भगवान् भूरिभूमिभार हरणार्थं लोकनमस्कृताद् गोलोकधाम सकाशादव तारेदं बलभद्रस्य भगवत आगमनं मयादेकथितं सर्वदुरितापहरणम् मङ्गलायनम् युवराजकौरवेन्द्र किम्भूय श्रोतुमिच्छसीदि इति श्रीगर्गसंहितायाम् बलभद्रखण्डे ज्योतिष्मत्युपाख्याने रेवत्युपाख्यानम् नाम चतुर्थोऽध्यायः ओम् अध्यायम् फैव् दुर्योधन उवाच मुनीन्द्राहो अहम् धन्योऽस्मि पुरा सङ्कर्षणस्य भक्तोऽस्मि त्वया स्मारितो भगवतो वासुदेवस्य सप्रभावम् माहात्म्यम् परमद्भुतम् श्रुतमात्रावतारौ शु भूत्वा भूम्याम् रामकृष्णौ पितुः पुरात् कथम् तौ ्रजवासिभिर्न ज्ञातौ कथमभूताम् भूताम्च तदुच्यताम् प्राड्विपाक उवाच अथैकदा मधुरायाम् यधुपुर्यामुग्रसेनाग्रजो देवको देवकीम् सुताम् वसुदेवाय ददा वद परवध्वो प्रयाणकाले कंस उग्रसेनात्मजस्तयोस्यन्दनं नोदयामास तदैव देववाणी कंसमाहा रेयां वहसे स्याश्चाष्ठमोगर्भोहि त्वां हनिष्यदिति श्रुत्वा स महासुरः कालनेमिसुधंसखड्गपाणिर्भगिनीं हन्तुं प्रवृत्तः तदैव वसुदेवस्तं बोधयित्वा प्राहै न मारयास्याः पुत्रान् समर्पयिष्ये यदस्ते भयं जातं ममापि इति श्रुत्वा तद्वाक्यसारवित्कं सस्तौ कारागारे कारयित्वा निश्चिन्तोऽप्यभवद अध देवक्या प्रथमम् जातम् पुत्रकंसाय वसुदेव प्रददौ तम् सत्यवादिनम् ज्ञात्वा कंसोऽर्भगं न जघानाम् अम्कानाम् वामदो गतिस्तथा देवानाम् तस्मादयं वा शत्रुः सर्वे यादवा देवा सन्ति तव वधमिच्छन्तीति नारदवाक्यात् पुनर्जादम् जातमपि निर्जखान अथ कंसभयात् पलायितानां यदूनाम् महान् कष्टो बभूव अथ गर्भो देवक्या भगवानन्दोक्यभवद तत्ते च श्रीकृष्णाज्ञया योगमाय देवक्युदरात् संनिहृष्य वसुदेवस्य भार्याय भयाद गोकुलस्थितायां रोहिण्यामर्प इदु मा जगाम तत्रै इदे श्लोकाः देवक्या सप्तमे गर्भे हर्षशोकविवर्धने व्रजं प्रणीदे रोहिण्यामनन्दे योगमायया अहो गर्भक्वविगद इत्यो जुर्माधुरा जनाः अधे वज्रे पञ्चदिनेषु भाद्रे स्वातौ च षष्ठ्यां च सिदे बुधेज उच्चैर्ग्रहैः पञ्चभिरावृतेज लग्ने तुलाक्ये दिनमध्यदेश्ये सुरेषु वर्षत्सुज पुष्पवर्षम् धनेषु मुञ्चत्सुज वारिविन्दून् बभुवदेवो वसुदेवपत्न्यां विभासयन् नन्दगृहं स्वभासा नन्दोऽपि कुर्वन् शिशुजातकर्म ददौ द्विजेभ्यो नियुदम् गवां च गोपान् समाहूय सुगायकानाम् रा वैर्महामङ्गलमाददान देवक्या देवक्यापरिपूर्णतमो भगवान् श्रीकृष्णचन्द्रो वा तार तदैव तदाज्ञया निषीधे प्रेङ्घे निधाय नन्दपत्न्यां योगनिद्रायां संसुप्ते जगदि सदि यमुनामुत्तीर्य महावनमेत्य यशोदाशयने सुतं निधाय तां पुनर्वसुदेवो गृहानाय यौ अधकारागारे बालध्वनिं श्रुत्वा शत्रुभेदकं सह समागत्य जातमात्राम् कन्याम् गृहीत्वा शिलापृष्टे पादयामास तदैव तद्ध समुत्पत्त्याम्बरे योगनिद्रा भूत्वा सिद्धचारणगन्धर्वमुनिगणस्तूयमाना तम् हे कलतवपूर्वशत्रुर्यत्र वा क्व वाजादौ वृदा देवकी वसुदेवौ दीनौ दुनोषी इत्युक्त्वा सा विन्ध्या जलम् जगाम इत्युक्तौ विस्मिदकं सो देवकीं वसुदेवम् च विमुच्य पूदनादीन् दैत्यान् समाहूयचा निर्दशान् निर्दशान् दशान। बालान् कन्तुमाज्ञाम् चकारक्रु ह अध नन्दो विपुत्रजन्मोत्सवम् श्रुत्वा महोत्सवं चकारैवम् ताम् सभयमे शेणव्रजम् रामकृष्णौ स्वमायया लक्षितौ व्रजवासिनाम् कृपाम् कर्तुम् जादमात्रावद्भुताम् बाललीलाम् चक्रदुः कौरवेन्द्रभूय श्रोतुमिच्छसि किम् इति श्रीगर्गसंहितायाम् बलभद्रखण्डे श्रीबलभद्रश्रीकृष्णजन्मोत्सवो नाम पञ्चमोऽध्यायः ओ अध्यायम् सिक्स् दुर्योधन उवाच मुनीन्द्ररामो नन्दो नन्दलील श्रीकृष्णोऽपि च भूम्यां भूत्वारराज तस्य सङ्क्षेपेण चरित्रं वद व्रजे किं मधुरायां किं द्वारकायां किम् अत्र किमन्यत्र किं चकार प्राड्विपाक उवाच अधः वावश्रीकृष्णो जात मात्रोद्भुतां लीलां पूदना मोक्ष शकडासुर शकडासुरतृणावर्तवधयुध विश्वरूपदर्शन दधि चौर्यब्रह्माण्डदर्शन यमलार्जुन द्रुमखण्डभङ्गाधि संयुक्तां दुर्वाससो मायादर्शन वैभवां श्रीमद्गर्गाचार्यवर्णित राधाकृष्ण नामौ धार्य माहात्म्ययुक्ताम् वरनन्दिनी सुरज्येष्ठकारिदवृषभानुवरनन्दिनी विवाहरासमण्डलकथा मण्डितां चकार तद श्रीवृन्दावनागमने सदिवत्सासुरबकासुराद्यासुराणां सुरा वधं कृत्वा गोपालैः सह गो वृन्तावनादिवनेषु विचचाराः अथ तालवने धेनुकासुरम् हरस्वनम् स्वपद्भ्याम् गृहीत्वा महाबलो बलदेवस्थालवृक्षेतम् पादयित्वा पुनरापतन्तम् भूपृष्टे बोधयामास मूर्च्छिदो भग्नमस्तकसद्यस्तन्मुष्टिप्रहारेण निधनं जगाम अध श्रीकृष्णकालीयदमनदावाग्नि पानादीनि चरित्राणि कृत्वा श्रीराधाप्रेमप्रकाशप्रीति परीक्षणवृन्दावनविहारदानमानलीलाहावभावयुक्तां शङ्कचूडवधादि शिवा सूर्युपाख्यानकथां कथनीयां लीलां चकार अधैकदा गिरिराजपूजने कृते भग्नबलिरिन्द्रः संवर्धमेकमण्डलैर्व्रजमण्डले ववर्ष तदा भगवान् भयादुरं व्रजम् वीक्ष्य माम् भैष्टेप्यभयं दत्त्वा एक हरेण गिरिराजम् समुत्पाट्यो चिलीन्द्रम् बाल इव दधार ह वावः सप्तवर्षीयसप्ताहम् सुस्थिरम् स्थितः अधेन्द्र सर्वदेवगणैर्भयभीदः श्रीकृष्णचन्द्रश्रीमत्पादार विन्दद्वयम् प्रणम्य गिरीडेन दुत्वा तदभिषेकम् कृत्वा महेन्द्रराट सुरभिसुरमुनिभिः स्वर्गं जगामा जगाम तदद्भुतम् गोवर्धनोद्धारणम् दृष्ट्वा गोपा विशेष्युस्तेभ्यो दिवैभवं सन्दर्शयामासुः अध श्रुतिरु पर्षिरूपा मैथिला कौशुला कौशलायोध्यापुरवासिनी यज्ञसीताफुलिन्दकारमा वैकुण्डस्वेदद्विपोर्ध्ववैकुण्डाजिदपदश्रीलोकाचलवासिनीसखी दिव्या दिव्यात्रिगुणवृत्तिभूमि गोपीजनदेव श्रीजालन्धरी बर्हिष्मदी पुरन्त्रि अप्सरस्ते वासिनी नागेंद्र कन्या सुदलवासिनी नागेन्द्रकन्यादिभिर्गोपीयूधैः पृथक् पृथक् श्रीकृष्णो व्रजमण्डले रासमण्डलं चकार ये गदागाचारयन् सबलश्रीकृष्णो गोपालबालैर्भाण्डीरे बाललीलां बाह्यवाहकलक्षणां कृतवान् तत्र प्रलम्बो गोपरूपी दैत्यो विहारे विहारविजयम् रामम् स्वपृष्ठे निधायो वाह अदहमधुराम् गन्तुमुद्यतम् गिरीन्द्रस्य सदृशदेहम् तमुद्वीक्ष्य पुष्टकदो बलदेवो महाबलोरुषमुष्टिना शिरसि महाद्रिम् यदाद्रिभित्तताडतेन सद्यो विशिर्नमस्तको वज्रहदो गिरिरिवस दैत्यो भूम्यां निपपाद ये कदा ग्रीष्मे मुञ्जारण्यगदा सुगोषु गोपालेषु य सत्सुतद्यः सम्भूतो दावाग्निप्रलयाग्निरिव ववृधे तदा कृष्णरामेदि वदत पाहि शरणं गतान् वीक्ष्य लोचनानि निमीलयताशु मां भैष्टेत्युक्त्वा मा तमग्निमपि वद अधः वाव भाण्डीराद्य मुनातीरे गोपालगोगणं नीत्वा प्राप्तो भू तत्राशोगवने यज्ञपत्न्यानीदं भोजनं कृदवान् अथ चैकता व्रजे नन्दराजे वरुणग्रस्ते वरुणस्य मानभङ्गम् कृत्वा नन्दादिभ्यो गोपेभ्योऽपि सर्वलोकनमस्कृतं वैकुण्ठं दर्शयामास अथ अम्बिगावने श्रीकृष्णसरस्वतीरे नन्दं ग्रसन्दं सुदर्शनं सर्पम् किल किल लोकपालवन्दितेन श्रीमच्चरणारविन्देन स्पृष्ट्वा सर्पदेहार्थमोचयामास अध सबल श्रीकृष्णो निलायनक्रीडायां चोररूपं व्योमासुरं कं ससखं भुजदण्डाभ्यां गृहीत्वा दश दिशासु भ्रामयन् भूपृष्ठे बोधयामास तथारिष्टासुरम् कंसप्रणोदितम् वृषरूपम् शृङ्गयोः समुद्रुध्यपादयामास अथ नारदमुखाश्रुतश्रीकृष्णकथेन कंसेन प्रणोदितम् केशिनम् श्रीकृष्णस्तन्मुखे स्वभुजप्रवेशेन सम्म मर्देद्धमनेका लीला सहसा व्रजमण्डले बलेन रयामास यदि श्रीगर्गसंहितायां बलभद्रखण्डे प्राग् विपाकदुर्योधनसंवादे रामकृष्णव्रजलीलावर्णनं नाम षष्ठोऽध्यायः ओम्